अथ चतुर्दशोऽध्यायः श्रीकृष्ण उवाच सर्वैर्गुणैर्महाराज राजसूयम् त्वमर्हसि जानतस्त्वेव ते सर्वम् किञ्चिद्वक्ष्यामि भारत जामदज्ञेन रामेण क्षत्रम् यदवशेषितम् तस्मादवरजं लोके यदिदम् क्षत्रसञ्ज्ञितम् कृतोऽयं कुलसङ्कल्पः क्षत्रियैर्वसुधाधिपा निदेशवाग्भिस्तत्ते ह वेदितम् भरतर्षभ ऐलस्येक्ष्वाकुवंशस्य प्रकृतिम् परिचक्षते राजानश्रेणिबद्धाश्च तथान्ये क्षत्रिया भुवि ऐलवंशाश्च ये राजंस्तथवेक्ष्वाकवो तानि चैकशतं विद्धि कुलानि भरतर्षभ ययातेस्त्वेव भोजानाम् विस्तरो गुणतो महान् भजतेऽद्य महाराज विस्तरम् स चतुर्दिशम् तेषाम् तथैव ताम् लक्ष्मीम् सर्वक्षत्रमुपासते इदानीमेव वै राजन् जरासन्धो महीपतिः अभूय श्रिय तुलाम सेचि स्थि मूर्धि नरेन्द्राणाम क्रम्य सर्वश